नवाधिकशततमोऽध्यायः भीष्म उवाच गुणैः समुदितम् सम्यगिदम् नः प्रथितम् कुलम् अत्यन्यान् पृथिवीपालान् पृथिव्यामधिराज्यभाक् रक्षितम् राजभिः पूर्वम् धर्मविद्भिर्महात्मभिः नोत्सादमगमच्छेदम् कदाचिदिह नः कुलम् कृष्णेन च महात्मना समवस्थापितम् भूयो युष्मासु कुलतन्तुषु भूयः कुलम् सागरवत्यथा तथा मया विधातव्यम् तया चैव न संशयः श्रूयते यादवी कन्यास्वनुरूपा कुलस्य नः सुबलस्यात्मजा चैव तथा मत्रेश्वरस्य च कुलीनारूपवत्यश्च ताः कन्याः पुत्रसर्वशः उचिताश्चैव सम्बन्धे तेऽस्माकम् क्षत्रियर्षभाः मन्ये वरयितव्यास्ता इत्यहम् धीमताम् वर सन्तानार्थम् कुलास्यास्य यद्वा विदुरमन्यसे विदुरौ भवान् पिता भवान् माता भवान्नः परमो गुरुः तस्मात् स्वयम् कुलस्यास्य विचार्य कुर्यद्धितम् वैशम्पायनोवाच अथ शुश्राव विप्रेभ्यो गान्धारीम् सुबलात्मजाम् आराध्य वरदम् देवम् भगनेत्र हरम् हरम् गान्धारी किल लेभे वरम् शुभा इति शुश्रावतत्त्वेन भीष्मः कुरुपितामहः ततो गान्धारराजस्य प्रेषया मास भारत अचक्षुरिति तत्रासीत् सुबलस्य विचारणा कुलम् ख्यातिम् च वृत्तम् च बुद्ध्या तु प्रसमीक्ष्य धृतराष्ट्राय गान्धारीम् धर्मचारिणीम् गान्धारीत्वथ शुश्राव धृतराष्ट्रम चास्मै पित्रामात्रा च भारत ततः सापट्टमादाय कृत्वा बहुगुणम् तदा बबन्धनेत्रे स्वे राजन् नाभ्यसूयाम् पतिमहमित्येवम् कृतनिश्चय ततो कान्धारराजस्य पुत्रश्च कुनिरभ्ययात् स्वसारं वयसा लक्ष्म्या युक्तामादाय कौरवान् ताम् तदा धृतराष्ट्राय तदौ परमसत्कृतम् भीष्मस्यानुमते चैव विवाहं समकारयत् दत्त्वा वीरो यथार्हम् च पुनरायात् स्वनगरम् भीष्मेण प्रतिपूजितः गान्धार्यपि वरारोह शीलाचारविचेष्टितैः तुष्टिम् कुरूणाम् सर्वेषाम् जनयामास वृत्तेनाराध्यतान् सर्वान् गुरोन् पतिपरायणा वाचापि पुरुषानन्यान् सुव्रतानान्मकीर्तयत् इति श्रीमहाभारते आदि पर्वणि सम्भव पर्वणि धृतराष्ट्र विवाहे नवाधिक शत